मोध्याजः ध्यानम् ॐ अरुणां करुणातरङ्गिताक्षिं धृतपाशाङ्कुशमानतापहस्ताम् अणिमाद्भिरामृतां मयुखै अहमित्येव भावये भवानिम् ओम ऋषिरुवाच चण्डे च निहते दैत्ये मुण्डे च विनिपातिते बहुलेषु च सैन्येषु स्थैित्वेष्वसुरेश्वरः ततः कोपपराधीनां चेताशुम्भ प्रतापवान् उद्योगं सर्वसैन्यानां दैत्यानाम् आदिदेशः अद्य सर्वबलैर्दैत्या षडशीतिरुदायुधा कम्बूनां चतुरशीतिनिर्जान्तु श्वलैर्भिता कोटिवीर्याणि पञ्चाशत् सुराणां कुलानि वै शतं कुलानि धूम्राणां निर्गच्छन्तु ममाज्ञयाम् कालका का मौर् कालके के तुरा यद्धाय सज्जा नियानो आज्ञया तरीता मम्हासुरपति शुंभो भैरवशा सन निर्जगा महासैन्य सहस्री बहुत आयान्तं चण्डिका दृष्ट्वा अतिभीषणं जास्वने पूरयामास धरणि गगनान्तरं ततः सिंहो महानादम् अतिकृतवान् तन्नादम् अम्बिका धनुर्जा सिंहकण्टानां नादापूरितदिङ्मुखां निनादैभीषणैः काली जिज्ञे विस्तारितानिनां तं निनादमुपसृत्य दैत्यसैन्ये चतुर्दिशं देवी सिंहस्तथा काली सरोषैपरिवारिता एतस्मिन्नन्तरे भूप विनाशाय सुरद्विषां भवायामरसिंहानाम् अतिवृज्यबरान्विताः ब्रह्मे सगुहविष्णूनां तथेन्द्रस्य च शक्तयः शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्चण्डिकां जयो यस्य देवस्य यद्रूपं यथाभूषणवाहनं तद्वदेव हि तस्सक्ति असुरानयोद्रुमाययौ हंसयोक्तविमानाग्रे साक्षात् आयाता ब्रह्मण शक्ति ब्रह्माडी साभिधीयते माहेश्वरी विशारूढा त्रिशूलवरधारिणी महाहिवलया प्राप्ता चन्द्ररेखाविभूषणां कौमारीशक्तिहस्ता च मयूरवरवाहनां योद्धुम् अभ्याययौ दैत्यान् अम्बिकागुहरूपिणी तथैव वैष्णवीशक्तिः गरुडोपरि संस्थिता शङ्खचक्रगदाशार्गखड्गहस्ताभ्युपाययौ यज्ञवाराहमतुलं रूपं या बिभ्रतो हरेः शक्तिसा प्याययौ तत्र वाराहिं बिभ्रतीतनुं नारसिंहेन सिंहस्य बिभ्रति सदृशं वपुः प्राप्ता तत्र सताक्षेप क्षिप्तनक्षत्रसंहतिः भद्रहस्ता गजराजो गजराजोपरिस्थिता प्राप्ता सहस्रनयनां यथा सक्रस्तथैव सा ततपरिवृतास्ताभि ईशानो देवशक्तिभिः हण्यताम् असुरा शीघ्रम् मम प्रीत्याह चण्डिकां ततो देवी देवीशरीरात्तु विनिष्कान्तातिभीषणां चण्डिकाशक्तिरत्युग्रा शिवा शतनिनाथिनी वाचाहधुम्रजटलम् ईशानामपराजिता दूतत्वं गच्छ भगवन् पार्श्वं शुम्भनिशुम्भयो ब्रूहि सुम्भम् निशुम्भं च दानवावति गर्वितौ ये चान्निदानवास्तत्र युद्धाय समुपस्थिता त्रैलोक्यमिन्द्रौ लभतां देवा सन्तु हविर्भुजः यूयं प्रयात पातालं यदि जीवितुमिच्छत बलावले पादथ चेद्भुवन्तो युद्धकाङ्क्षिणः तदागच्छत् तृप्यन्तो मत्सिवापिसि यतो नियुक्तो दैत्येन दयता तया देव्या शिव स्वयं शिवदूतीति लोकेऽस्मिन् सर्वाख्यातं महाशुरा अमरसा पूरिता जग्मु यत्र कात्यायनिष्ठिता ततः प्रथममेवाग्री सरसकृष्टिभेष्टिभिः ववर्सुरुद्धतामनसां तां देवी मम राजयः सा च तान् शूलशक्ति परश्वधान् शिक्षि दलीलयात्मात् धनमुक्तैर्महे शुभी तस्यागृतस्तथा कारी शूलपातभिदारितान् कट्वाङ्गपोथितांश्चारिन् कुर्वती व्यतिरत्तरा कमण्डलो जलाक्षेप हतवीर्यान्हतौ ज ब्रह्माडी चाकरो शत्रून् येन येष्णश् स्मृतामती माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी दैत्यान्धघानकौमारी तथा शक्त्यातिकोपनां हीकुलसपातीन सतसो दैत्यदानवाः पेतुर्विदारिता पद्भ्याम् दिरोघप्रवर्षिणः तुण्डप्रहारविध्वस्ता द्रष्ट्राग्रक्षतवोक्षसः वाराहमृत्यानपतचक्रेण च विदारिता न कैर्विदारिताश्चान्यान् भक्षयन्ति महासुरान् नारसिंहे च ताराजौ नादापूर्णदिगम्भराम् चण्डाट्टहासैरसुरा शिवदूर्त्यभिदूषिता ते तु पृथिव्यां पतितां तां च खादा सा तदा <coughs> इति मातृगणं क्रुद्धं मर्जयन्तं महासुरान् दृष्ट्वाब्जुपायैर्विधैर्णेसुरदेवारिसैनिका पलायन्तरान् दृष्ट्वा दैत्यान् मातृगुणार्धितान् योद्धुमप्याययौ क्रुद्धो रक्तबीजो महासुरः रक्तबिन्दुर्यदाभूमौ पतत्यस्य शरीरतः समुपतिु मेदिन्यां तत्प्रमाणस्तदाशुरः युधे स गदा पाळी महासुरः ततश्चन्द्रिस्वभज्रेड रक्तबीजवताडय कुलसेनाहतस्त्यास्सु बहुशुश्रावशोणितम् समुतस्तु ततो योधा तद्रूपास्तत्पराक्रमा यावन्तपतितास्तस्य तावन्तपुरुषा जाता तद्विर्यबलविक्रमा ते चापेयुधुस्तत्र पुरुषा रक्तसम्भवा समं मातृभिरत्युग्रशस्त्रपातातिभीषणं पुनश्च वज्रपातेन शतमस्य शिरो यदा भवाह रक्तं पुरुषाः ततो जाता सहस्रश वैष्णवीसमरे चैनं चक्रेणाभीजघानः गदया ताडयामास इन्द्री तमसुरेश्वरं वैष्णवीचक्रभिन्नस्य रुधिरस्रावसम्भवै सहस्रसो जगद्व्याप्तं तत्र माणैर्महासुरै शक्त्या मारी वाराशी च तथाशिना माहेश्वरी त्रिशूलेन रक्तबीजं महाशुरम् क चापि गदयादेत्य सर्वा एवाहनत्पृथक् मातृकोपसमाविष्टो रक्तबीजो महाशुरः तस्याहतस्य बहुधा शक्तिशूलादिभिर्भवे पपातयो वै रक्तौघ तेनाः सतसोऽसुरा तैश्चासुरासिक् सम्भूतैः सुरैः सकलं जगन् व्याप्तमासीत् ततो देवा भयमाजद्मुरुत्तमं तान् विष्णान् सुरान् दृष्ट्वा चण्डिकाप्राह सत्वरा उवाचकालिं चामुण्डे विस्तृणं वदनं कुरु महाशुरान् रक्तबिन्दुन्महाशुरान् प्रतिक्षत्वं वक्त्रे नादेव वेगिनां भक्ष्यन्ति चरणे तदुत्पन्नान् महाशुरान् एवमेव क्षयं दैत्य क्षीररक्तो गमिष्यति भक्ष्यमाणा स्वया चोग्रा न चोत्पश्यन्ति चापरे इत्युक्पातां ततो देवी शूलेनाभिजघानतम् मुखेन काली जगृहे रक्तबीजस्य शोढितं ततो सा वां जघानाथ गदया तत्र चण्डिकां न चास्या वेदनां चक्रे गदापातोऽल्पिकामपि तस्याहतश्च देहात्तु बहुशुश्रावशोडितम् यतस्तत्तद्वक्त्रेण चामुण्डा सम्प्रतीक्षते मुखे समुद्गता येष्या रक्तपातान्महाशिरा तां च च शोढितम् देवी शूलेन वज्रेण बाणैरसिभिष्टिभिः जघानरक्तबीजं तं चामुण्डा पीतशोडितं स पपात्मही समाहतः शस्त्रसङ्घसमाहतः निरक्तश्च महिपाल रक्तबीजमहाशुरः रक्त ततस्तेह हर्षमतुलम् अवापोस्त्रीदशा निप तेषां मातृगलो जातो न नर्ता सङ्गतोद्धतः ॐ श्रीमार्कण्डे पुराणे चावणिके मन्वन्ते देवी महात्म्ये रक्तबीजवधो राम ॐ श्रीदुर्गायै नमः